गणेशपुराणं क्रीडाखण्डम् अध्यायं तर्टि वन् क उवाच वेदांश्च चतुरसाङ्गानध्यापयद तं मुनिः एकस्मिन् दिवसे तादं वामनः पर्यपृच्छद केनोपायेन देवानां पदप्राप्तिर्भविष्यति भूभार हणम तथा वक्तर्हसी कश्यप उवाच उपदेश क्या मंत्र सिद्धिद्य षर विघ्नेशत मस्स विघ्नेशे जगस्ंधकारिणी अनेकब्रह्माण्डविद्धौ सर्वकारणकारणे सर्वे कामास् प्रसिध्यन्ति तदर्थे यत्नमाचर क उवाच ददौ तस्मै सुमुहूर्ते महामनुं तदैव चलितस्तस्मादाश्रमधर्षसंयुतः प्रणम्य तमनुज्ञाप्य जगाम तपसे शिशुः भ्रमदा ददृशे तेन विदर्भे स्थानमुत्तमं लता कासारपरिशोभितं तत्र पद्मासनं कृत्वा जजाप तं मनुंशुभं षडक्षरम् वर्षमात्रं निराहारो जितेन्द्रियः निर्वाणं तस्य तज्ज्ञात्वा विरासीत् सिद्धिबुद्धियुग मयूरवाहनो देवः शुण्डादण्डविराजितः बिलसत् दर्शदोर्दण्डो रत्नमाला विभूषितः आशीविष लन्नाभिर्नानालङ्कारशोभितः आगतो दृढभक्तं वत्समिवादराद। धेनोर्वत्समिवादराद वामनस्तम्बुरोद्धृष्ट्वा सर्वतेजोभिभाविनम् सर्वसिद्धिकरम् देवम् नुनाव परया भक्त्या देवदेवं गजाननं वामन उवाच अव्यक्तं व्यक्रहेदुं निगमनुतनुं सर्वदेवाधिदेवं ब्रह्माण्डानामधीशं जगदुदयकरं सर्ववेदान्तवेद्यम् मायातीदं स्ववेद्यं स्थितिविलयकरं सर्वविद्यानिधानं सर्वेश्वं सर्वरूपं सकलभयहरं कामदं कान्तरूपम् तं वन्दे विघ्नराजं विधिहरमुनिभिः सेव्यमानं स्नागैस्तेजोराशिं त्रिसत्यम् त्रिगुणविरहितं तत्त्वमस्यादिबोध्यं भक्ते चोपात्तदेहं निजजनसुखदं तत्त्वबुद्धिप्रकाशं साम्बाध्यैस्तूयमानं सकलतनुगदं भुक्तिमुक्तिप्रदं तं क उवाच युधि स्तुदो देवदेवप्रसन्नप्राहवामनं वरं वरय तुष्टोऽयं यत्ते मनसि वर्तते स्तोत्रेण तपसा चैव तुष्टो ददामि तद् वामन उवाच न स्वरूपं विदुरब्जजाद्या ब्रह्मर्षयो ये सनकादिकाद्याः सत्वं दृष्टोसी सगदाधीशम वरमद्यचे अधापिते वाक्य भिदा भयात्वां याचे वरम तम ममदे पराजयो मे न कदापि। काज्ये किले विघ्न नचस्याद। उद्यतोस्ति। बलिशक्रपदमत्तुं क्रदोर्बलाद स च मां शरणं यादस्तस्य सिद्धिर्यथा भवेद तथा कुरु जगत्कर्तर्यदि मेनक गजानन उवाच ये दत्ते भविता सर्वं स्मरणान् मम सुव्रत सेत्स्यन्ति सर्वकार्याणि महान्ति च लखूनि च क उवाच एवमुक्त्वा गदे देवे वा मनोकारयच्छुभां काश्मीरोपलजां शोध स्थापयन्मूर्तिमुत्तमां चतुर्भुजां त्रिनयनां शुण्डा दण्डविराजिताम् प्रसन्नं करिहस्ताभ्यां भाक्राणामभयं प्रदां स्मरणाद्दर्शनाद्दयनात् पोजनात् सर्वकामदाम् प्रासादं कारयामास रत्नकाञ्चननिर्मितं तत्रैकं ब्राह्मणं स्थाप्य ग्रामं दत्त्वा दनानि च त्रिकालम् पूजने तस्य कारयामास तेन सह आगतस्वगृहं नत्वापि दरम् सर्वमब्रवीद तपश्च तत्फलम् चाध यज्ञम् गन्तुमपृच्छत कस्य पेनाभ्यनुज्ञातो वामनो दर्भदण्डभृद सूत्रकृष्णाजिनधरो मेखली यज्ञमाययौ ह्रस्वहृदिं मुनिं दृष्ट्वा मुनयो विस्मितास्तदा नायं मुनिर्यदस्तेजो दृश्यदे परमाद्भुतं तं दृष्ट्वा परमायांतं बलिरुद्धाय सत्वरं कोसि त्वमिति पप्रच्छनत्वा तं कुत आगधः किं वाञ्छसि वद वि कस्तव वत्सदिष्टव कुत्रास्ति तद ऊजे स वामनः न स्मरेऽपितरौ राजन्ननाथं विद्धि मां कृशं त्रैलोक्येव सतिर्मेस्ति याजे भूमिं त्रिभिपदैः मिदां कर्तुं पर्णकुडीं शक्तिश्चेदस्ति धीयताम् क उवाच यदि वाक्यं मुने श्रुत्वा हृदि ज्ञात्वा कृपायुतं तं दादुमुद्यदं भूमि मूचे काव्यो बलिं तदा शुक्र उवाच न ब्राह्मणो हरिदयम् कपडं रूपमास्तिदः हरिष्यदि त्रिभुवनं पदत्रयमिषेणतु मादीयदामस्य किञ्चिदिति सत्यं ब्रवीमि ते तमुवाजमहादैत्यो मूढ वदसे वदसेवचः हरिश्चेद्विमुखो गच्छेत् सर्वं मे सुकृतं नयेत् अस्मात् पात्रं किमन्यत्स्यादस्मै एत्युक्त्वा तं पुनः प्राह वामनं दैत्यपुङ्गव ब्रह्मन् दत्तामया भूमिः सङ्कल्पक्रियदामिति वामनप्राह राजानं सङ्कल्पयितुमुद्यतः तावद्धारां निरुध्यैव स्थितः शक्रोऽन्यदेहतः ददौ शलाकां तत्पात्रे भग्ननेत्रो बहिर्गतः ततः पाणितले तस्य वामनस्य जलं ददौ स्मृत्वा गणेशं ववृधे वामनो हर्षनिर्भरः मूर्धन्याक्रम्य स्वर्लोकमेकपादेन रोदसी पादालान्यपरेणापि दत्तम् तन्मस्तके परम् तत ऊजे बलिं देवो गच्छ त्वम् धरणीतलम् त्वाम् विनाशम् कथम् यामीत्येवमाह बलिस्तुतम् इत्याकर्ण्यवचस्तस्य पुनस्तम् प्राहवामनः सान्निध्यम् मम तत्रापि भविदा त्वदनुग्रहाद इन्द्रो मां शरणं यादः प्रियं कार्यं हि तस्य मे तवापि मम भक्तस्य प्रियं पश्चाद्भविष्यति ऐन्द्रे पदे निवृत्तेस्य पदं यास्ये तवैव तद तदो ब्रह्मादयो देवास्तुष्टुवोर्वामनं विभुं मोमोचुपुष्पवर्षाणि वाद्यानि वदुःसुराः पुुष्टेऽपि सर्वे च जगुश्च न न नृधुपरे ततश्चान्दर्दधे देवो वा मनोनन्दविक्रमः स्वं स्वं स्थानं गदा देवा यथा पूर्वम् मुदान्विताः क उवाच एवं तेन कृता मूर्तिर्विख्यादा भूजगत्रये गजाननस्य देवस्य सर्वेषां कामदा नृणाम् इत्येतत्कथितं सर्वं प्रसङ्गात् बलिचेष्टितं जाकवं वामनस्यापि महिमा सुमुखस्यः अदोषाख्ये पुरे तेन स्थापितस्य महात्मना दश बाहो प्रसिद्धस्य देवदक्षिणभागतः प्रियत्वं तस्य सम्यास्ते प्रियस्ते कथयेधुनाफुटेशणे क्रीड़ाखंडे बालचरिते एक